श्रीहरिः श्रीमद्भागवत् की आरती आरतीयति पावनपुराण के धर्मभक्तिवे ज्ञानकारी आरतीयति पावनपुराण के, पावन के धर्मभक्तिवे ज्ञानखानी महापुराण भागवत निर्मल सुखमुख विगलित निगम कल्पफल परमानन्द सुधारसमय कल लीलारतिरस रस निधानी आरतीयति पावन पुराण के हर्मभक्तिवे ज्ञानकारणकी कलिमलमथन तृतापनिवारिणि जन्म मृत्युमय भव भयहारिणि सेवत सतत सकल सुखकारिणिमहो सधि हरिचरित गानके भरति यति पावनपुराण की धर्मभक्तिवे ज्ञानखानकी विलास मे विनाशिनी विमल विराग विवेक विवेकविकासिनी भगवत तत्त्वरःश्च प्रकाशिरी परम ज्योति परमात्मज्ञानी आरतीयति पावन पुराणकी परमहंस मुनि मन उल्लासिनी रसि कृषदै रसरासविलासिनी भुक्ति रति प्रेम सुदासिनी कथाय किञ्चन प्रियसुजानकी आरतीयति पावनपुराणकी धर्मभक्तिविज्ञानकारी आरतीयति पावनपुराण की धर्म भक्ति वे ज्ञाने धर्म भक्ति